हरि ओम् अथ श्रीमद्देवी महापुराणे श्रीमद्देवी महात्म्ये चतुर्थोऽध्यायः सूत उवाच इति श्रुत्वा कथाम् दिव्याम् विचित्राम् कुम्भसम्भव शुश्रूषु पुनराहेदम् विशाखम् विनयान्वित अगस्त्योवाचे देवसेनापते देव विचित्रेयम् श्रुता कथा पुनरन्यच्च माहात्म्यम् वदे भागवतस्य मे स्कन्द उवाच मित्रावरुणसम्भूत मुने श्रोणो कथामि माम् यत्रैकदेश महिमा प्रोक्तो भागवतस्य तु वर्ण्यते धर्मविस्तारो गायत्रीमधिकृत्य च गायत्र्या महिमा यत्र तद्भागवतमीष्यते भगवत्या इदम् विदुः ब्रह्मविष्णु शिवाराध्या परा भगवतीता हृतवागिति विख्यातो मनयासीन् महामतिः तस्य पुत्र भवत्काले गण्डान्ते पौष्णभान्तिमये सप्तस्य जातघर्मादि क्रियाचक्रे यथाविधि चूडोपनयनादिश्च संस्कारानपि सुकरोत् यत् आरभ्य जातो सु पुत्र तस्य महात्मनः तत एव तस मुनिः शोकरोगाकुलो भवेत् रोषलोभये परहितात्मा तथा मातापितस्य च बहुरोगार्चिता नित्यं शुच दुःखी कृता भृशम् वृतवा मुनिश्चिन्ताम् अवाप् भृशदुःखितः किम् एतत् कारणम् दातम् पुत्रो मेश्यन्त दुर्मतिः कस्यचिन्मुनिपुत्रस्य बलात् पत्नीम् जहार मे न शिक्षामपि दुर्नाशो न च मातुर्विमूढधि सतो विशन्न चित्तसू ऋत्वा गभ्रविदिदम् अपुत्रतावलं दृणां न कदाचित् कुपुत्रता पितृ कुपुत्र स्वर्यातान् निरहे पापि यच्चपि यावज्जीवे तदा पितर केवलं दुःखदायकः पित्रोर्दुःखायधिक्जन्म के कुपुत्रस्य च पापिनः सुहृदाम्नोपकाराय नापकाराय वैरिणाम् धन्यास्ते मानवालोके सुपुत्रो यद्गृहे स्थितः पुरोपकारशीलश्च पितुर् मातुः सुखावहै कुपुत्रेण कुलम् नष्टम् कुपुत्रेण हतम् यशः कुपुत्रेणैह चामुत्र दुःखम् निरययातना नष्टो जन्म नष्टम् कुभार्यया कुभोजनेन दिवसे कुमित्रेण सुखम् कृतः स्कन्धवाच एवम् दुष्टस्य पुत्रस्य दुष्टैः आचरणैर्मुनैः तप्यमानो निशं काले गत्वा गर्गम् अपृच्छत कृतवा उवाच भगवन्तामहम् प्रष्टुम् इच्छा दीवदत्तत्त्व ज्योतिश्शास्त्रस्य चाचार्य पुत्रदौषल्यकारणम् गुरुशुश्रूषया वेदाधीता विधिवन्मया ब्रह्मचारी व्रतन्ति सा विवाहो विधिवत्कृतः भाग्यया स गार्यस्य धर्मश्चानुष्ठितोनिशम् पञ्चयन्नविधानं च मया कारि यथाविधि नरकाद्बिभ्यता विप्र कामसुखेच्छया गर्भाधानं च विधिवत् पुत्रप्राप्त्यै मया पुत्रोऽयं मम दोषेण मातुर्दोषेण वा मुरे जातो दुःखाभयः पित्रो दुःशीलो ए एतन्निशम्य वचनं गर्गाचार्यो मुने सदा विचार्य सर्वं तद्धेतुम् ज्योतिर्विद्वाचमप्रवीत् गर्ग उवाच मुने नैवापराधस्ते न मातुर्न कुलस्य च रेवत्यन्तं तु गण्डान्तं पुत्रदौशल्यकारणम् दुष्टे काले यतो जन्म पुत्रस्य तव भो मुदे तेनैव तव दुःखाय नान्यो हेतुर्मनागपि तद्दुःखशान्ते ब्रह्म जगताम् मातरम् शिवाम् समाराधय यस्मिन् दुर्गाम् दुर्गतिनाशिनीम् गर्गस्य वचनम् श्रुत्वा ऋत्वा क्रोधमूर्छितः रेवतीम् तु शशापाशुव्यम् न दत्तैषाप्युतेनाथ पुष्णो भञ्च पपातखात् कुमुदाद्रो भासुमानम् सर्वलोकस्य पश्यतः ख्यातोरेव तकश्चाभूत् तत्पातात् कुमुदाचलः अतीव रमणीय च ततः प्रभृति सोऽप्यभूत् दत्त्वा शापं चुरेवत्ये गद्गोक्त सभाराध्याम्बिकाम् देवीम् सुखसौभाग्य भागभूत् कन्दवाच रेवतीक्षसं तस्माज्जाता तु कन्यकरूपेण प्रतिमालोके द्वितीयः श्री वा भवेत् अथ साम् प्रमुच कन्याम् रेवती जा, कान्तिसम्भवाम् दृष्ट्वा नाम चकारास्य रेवतीति मुदामुनिः नन्ये तश्वाश्रमे चैनां पोषया मास धर्मतः ब्रह्मश्चि प्रमुचो नाम कुमुदाद्रो सुतामिव अथ कालेन च प्रौढाम् दृष्ट्वा तां रूपशालिनीम् स मुनि चिन्तयामस कोच योगयो भवेत् बहुधान्वेषयन्तस्य नास सा दोचितम्पतिम् ततोग्निशालाम् संविश्य कन्यावरं तदा शंसत् ीतस्त हव्यष्ठो बलवान् वीरे प्रियवागपराजितः दुर्दमो भविता भर्ता मुने पृथिवी पतिः इति श्रुत्वा वचो वह्ने प्रसन्नो भुन्मुनि दैवादाक्षे व्यादाक्षणादागतो नृपः दुर्दमो नाम मेधावी तस्याश्रमपदम् मुने पुत्रो विक्रमशीलस्य बलभवान् वीरेवत्तरः कालिन्दी चेदात् प्रियभृत् कुलोद्भवे मुने आश्रममाविश्य तमदृष्ट्वा महामुनिम् आमन्त्र्य तां प्रिये चेतिरेवतीं पृष्टवान् नृपः राजोवाच महर्षि भगवानस्मादाश्रमात् प्रगतप्रिये तत्पादो द्रष्टुमिच्छामि वदे कल्याणि तत्पतः च अग्निशालामुपगतो महाराज महामुनिः निश्चक्रामाश्रमात् राजा राजाप्याकर्ण्य तद्वचः अथाग्निशालाद्वारस्थं राजानन्दुर्दमं मुनिः राजा, राजा लक्ष्मसंयुक्तम् अपैश्यप्रश्रयान तम् प्रनाम च तं राजा मुनिशिष्यमुवाच गौतम् मानयतां मर्घ्यम् अर्घ्योग्यो भूपति ही, आगते चल काले नातेशेषतुक्ता जग्राह चिंतन मुनिरासन आसीनम गृहीता आशीर्भिंद कुशल चाप्यपृछत अभी तेनाम राजले कोशे सुरत् भूत्यमात्ये पुरुषे पुरे देशे तथात्मनि जनादिप भार्यासीते कुशलिनी यथात्रैव तिष्ठति अतो न पृच्छान्यस्यास्ति शान्यस्यां कुशलं वद राजोवाच भगवन् तत्प्रसादेन सर्वत्रा नामयम् मम एतत् कुतूहलं ब्रह्मन् मद्भार्या कात्र रेवति नामते ते भर्येण ना प्रतिमा भुवि विद्यतेऽत्रै कथम् पत्नी तां न वेत्ति महीपते राजोवाच सुभद्राद्यास्तु या भार्या मम सन्ती गृहे विभो जानामि तास्तु भगवन्नैव जानामि रेवतीम् ऋषि उवाच प्रिया इति साम्प्रतं राजन्तयोक्ता या महामते सा विस्मृता राजोवाचे याति श्लाघ्य समाप्रिया राजोवाच तथैव मन्त्रिता मया मुने दुष्टो न मे भावे कोपम् मा कर्तुमर्हसि ऋषि उवाच उक्तं त्वया सत्यं न भावो दूषितः सवे वह्निना प्रेरितेनेत्थं भवताभ्याहृतम्बच अद्य पृष्टो मया वह्निकोऽ भरता भविष्यति तेनोक्तम् दुर्दभो राजा भवितास्या पतिर्ध्रुवम् तदा तत्त्वे मया दत्तामिमाम् कन्याम् महीपते प्रीयत्या मन्त्रिता पूर्वम् मा विचारम् कुरुष्व भव स्वत्वयि तत्सु भवत्तुष्टिम् चिन्तयन् मुनिभाषितम् वैवाहिकम् तस्य मुनिम् कर्तुम् समुद्यतः अथोद्यतम् विवाहय दृष्ट्वा कन्याब्रवीन्मुनिम् रेवतिवृक्षे विवाहो मेता च कर्तुम् तमर्हसि रुषि उवाच वत्से विवाहयोग्यानि सन्त्यन्यक्षाणि भूरिश रेवत्याम् कथमुद्वाहे पोष्णभं न दिविस्थितम् कन्योवाच रेवतिवृक्षम् विना कालो ममोद्वाहोचितो न हि अतः सम्प्रार्थयामेतत् विवाहम् पौष्णभे कुरु ऋषि उवाच ऋतवाङ्मुनिना पूर्वम् रेवतीभम् निपातितम् भान्सरे चेन्नते प्रीतिविवाहे स्यात्कथं तव कन्योवाच तपः किं तप्तवा नैकर्तग्वागेव केवलम् भवता किं तपो नेदृक्तप्तं वा जगत्स्रष्टुम् समर्थः संवेद्याम् ते तोबलम् रेवतिरुक्षम् दिभि स्थाप्य ममोद्वाहम् पितः कुरु ऋषि उवाच एवम् भवतु भद्रम् ते तथैव सम्भ्रवीष माम् सत्कृते सोममार्गेयं स्थापयाम्यद्य पोष्णभम् स्कन्दवाच एवम् उक्त्वा मनुस्तूर्णम् पौष्णभं यथा पूर्वम् तथा चक्रे सुममार्गे घटोद्भव रेवती नाम्नि नक्षत्रे विवाहि विधिना मुनि रेवतीम् प्रददो राज्ञे दुर्दमाय महात्मने कृत्वा विवाहम् कन्याय मुनिराजानमब्रवीत् किं ते विलिचितम् वीर उदत्तत्पूरयाम्यहम् राजोवाच मनोस्वायम् भुवस्याहम् वोक्षे जातोऽस्मि हे पन्वन्तराधिपम् पुत्रम् तत्प्रसादाच्च कामये मुनोवाच यद्येषा कामनाथे देव्या आराधनम् कुरु भविष्यत्येव ते पुत्रो नुर्मन्मन्तराधिप देवी भागवतम् नाम पुराणम् यत्र पञ्चमम् पञ्चकृत्वस्तु च श्रुत्वा लप्स्यते भीमतं सुतम् देवत्याम् रैवतो नाम वेदविच्छास्त्र तत्त्वज्ञो धर्म वा न पराजितः इत्युक्तो मुनि नाराजा प्रणम्य मुदितो मुनिम् भार्यया सह मेधावी जगाम्यगरं निजम् पितृपैतामहं राज्यं चकार्य स महामतिः पालयामा स धर्मात्मा प्रजापुत्रा निवोरथान् एकदा लो मशो नाम महात्मा मुनिरागतः प्रणिपत्य त्वमभ्यञ्जलि चाब्रवीनृपहे राजोवाच भगवन्तप्रसादेन श्रोतुमिच्छामि भोमने देवि भागवतं नाम पुराणं पुत्रलिप्तया श्रुत्वा वाचं प्रजा भक्तु प्रीतप्रो वाचलो मशहे धन्योसि सुरासुरे नराराध्या यापरा जगदम्बिका तस्यां चेत् भक्तिरुत्पन्ना कार्यसिद्धिः भविष्यति अत स्वां श्रावयिष्यामि श्रीमद्भागवतम् नृपय यस्य श्रवणमात्रेण न किञ्चिदपि दुर्लभम् इत्युक्त्वा सुदिने ब्रह्मन् कथारम्भम् तथा करोत् पञ्चकृत्य शुशुश्राव विधिार्यया सह समाप्तिदिवसे राजा पुराणञ्च मुनिं तथा पूजयामास धर्मात्मा मुदा परमया युतः खुत्वानुवाणमन्त्रेण भोजयित्वा कुमारिकः बाडवांश पत्नीकान् दक्षिणाभिरतोषयत् अथ काले न केता भगवत्या प्रसादतः गर्भं ददाल साधान्ये लोककल्याणकारकम् का पुण्यथ समये प्राप्ते ग्रहीस्तु स्थानसङ्गते ङ्गलसम्पन्ने रेव पुत्रस्य जननं स्नात्वा राजा मुदान्वितः स सुवर्णां भसा चक्रे जातकर्माधिकाक्रिया यथाविधि च दानान् दत्वा विप्रा नतोषयत् कृत उपनयनं राजा साङ्गान् वेदान् पाठयत् सर्वविद्या निजे जातो धर्मिष्ठोऽ धर्मस्य वक्ता कर्ता च रैवतो नाम वीर्यवान् नियुक्तवान् ब्रह्म रैवतं मानवे पदे पन्मन्तराधिपति श्रीमान् गांसु धर्मतः इत्थं देव्या प्रभावोऽयं संक्षेपेणोपवर्णितः पुराणस्य च माहात्म्यं को वक्तुं विस्तराक्षमः कुम्भयोनिसूत कुम्भयोनिस्तु माहात्म्यम् विधिम् च शुष्काकुमारम् चाभ्यस्य स्वाश्रमम् पुनराययौ इदम् मया भागवतस्य विप्रा माहात्म्यमुक्तम् भवताम् समक्षम् शृणोति भक्त्या पठतिह भोगाम् भुक्त्वा खिलान् मुक्तिमुपैति जानन्ति इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवी भागवतमाहात्मे रैवतनामक मनु पुत्रोत्पत्तिवर्णनम् धाम चतुर्थोऽध्याय हे श्रीदेव्यार्पणमस्तु